स्नातं स्नातंताकद्रेतकुकम भीमसेनम भजे थास्तमस्तमना द्रवे अहः सुविहरानेन यथा कामम् अनोज वा अयं त्वानयितव्यस्ते भीमसेनः स दानिशी प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः एवं रमस्व भीमेन यावद्गर्भस्य वेदनम् एष ते समयो भद्रे शुश्रूष्यश्च प्रमत्तया नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया युधिष्ठिरेणैव मुक्ता कुन्त्या चाङ्केऽधिरोपिता भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता तिर्युरे याति हिडिम्बामि शालिहोत्र सरो रम्यम् आसेदुस्ते जलार्थिनः तत्तथेति प्रतिज्ञाय हिडिम्बा रक्षसि तदा वनस्पतितलं गत्वा परिमृज्य यथा पाण्डवानां च वासं कृत्वा पर्णमयं तथा आत्मनश्च तथा कुन्त्या एकोद्देशे चकारसा पाण्डवास्तु ततः स्नात्वा शुद्धा सन्ध्यामुपास्य च प्रषिता जलमात्रेण वर्तयन् शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान् पाण्डवांस्तदा मनसा चिन्तयामासा पानीयं भोजनं महत् ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनं कुन्तिराजसुता वाक्यं भीमसेन मथा ब्रवीत् कुन्त्युवाचा यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः अहं धर्मविधानेन मान्या तस्मात् पाण्डुहितार्थं मे युवराजहितं कुरु निकृताधार्तराष्ट्रेण पापेनाकृतबुद्धिना दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदरा तस्मात् कतिपयाहेन योगक्षेमं भविष्यति क्षेमं दुर्गमिमं वासं वसिष्यामो यथा सुखम् इदमद्य महद्दुःखं धर्मकृच्यं वृकोदरा दृष्ट्वैव त्वा महाप्राज्ञा अनङ्गाभिप्रचोदिता युधिष्ठिरं च मां चैव वरयामास धर्मतः धर्मार्थं देहि पुत्रं त्वं स नः करिष्यति प्रतिवाक्यं तु नेच्छामि यावाभ्यां वचनं कुरु वैशम्पायन उवाच तथेति तत्प्रतिज्ञाय भीमसेनोब्रवीदिदं शृणुराक्षसि सत्येन समयं ते पुत्रोत्दन शुभे गम्यामध्य मे वैशंपाए न उच तथेति तज्ञा हिडिबा राक्षसी तीमसेन मुदा सोर्धक्र मे